मुद्गलपुराणं खण्डं 6 विकटचरितम् अध्यायं 10 द्वाररहस्य वर्णनं श्रीगणेशाय नमः पञ्चदेवा ऊचुः क्षेत्रस्य मानसम्भूतं माहात्म्यं वदविस्तराद कियन्मानं समाख्यादं क्षेत्रं स्वानन्दवाचकम् अन्यच्च वद योगीन्द्रधर्मकामार्थमोक्षगान् अर्थान् येनैव तेषां सज्ञानयुक्तो भवेन्नरः पूर्वस्ते दुःकथं द्वारि धर्म एकः प्रतिष्ठति तदार्थो दक्षिणद्वारि पश्चिमे काम उत्तरद्वारसंस्तादु कथमुक्तिर्महामुने चतुर्ब्रह्मसुचत्वारि विभक्तानि कथं वद आदौ शाक्तं साधयित्वा पश्चात् सौरं लभे नरः ततो वैष्णवकं ब्रह्म ततः शैवं समाधिना तदो गाणेश्वरं ब्रह्मप्रलभेन्नात्र संशयः क्रमेण योगभूमिस्थो ब्रह्मभूदो नरो भवेत् अन्नादौ वैष्णवं ब्रह्मद्वारभूतं नरोत्तमः यात्रामार्गेण विप्रेष्य साधयेत् कथितं त्वया तदश्चैवं ततशाक्तं ततः सौरं विधानतः विपरीतं कथं प्रोक्तं वदकारणमत्र तु शक्तिसूर्यावतिक्रम्य कथं वैष्णवगो भवेद अकस्माद्भ्रान्तभावेन भ्रष्टो भवदि मानवः शक्रिरुवाच एवं पृष्टो महायोगी भृशुण्डीपरमार्थविद जगाददान् महादेवान् ततृणुध्वं तु शक्तयः भ्रुशुण्ड्युवाच धर्मस्वधर्मरूपश्च सर्वसिद्धिप्रदायकः अर्धसमर्थरूपाख्यो ज्ञातव्यसर्वदायकः कामशरीरभोगाख्यो हृद्यसौख्यप्रदायकः मुक्तिश्च दुःशरीरेभ्यो हीनत्वे परिकीर्तिता धर्मसर्वसमानाख्यो यथा भवति सर्वदा कर्मानुसारभावेन फलं नित्यं ददाति सः स्वं परं नैव देवेशा कदा धर्मस्य वर्तते शुभाशुभं कृतं येन तादृशं सफलं लभेद समानं वैष्णवं ब्रह्म तेन धर्मस्थितो भवत पूर्वद्वारे महाभागाः धर्मप्रकाशकाः आदौ स्वधर्म तदसर्वं सर्वं नरोत्तमः लभदेनात्र सन्देहकारणं धर्म एव च धर्मो विष्णुद्वारे समाश्रितः अध प्रथमधर्मार्थं पूर्वद्वारं समाचरेत् अर्थः समर्थरूपाख्य ईश्वरान्नपरोत्तमः समर्थस्तेन देवेन्द्रा अर्थस्तत्र समाश्रितः समर्थभावेन यदि केऽपि तिष्ठन्ति देवताः ते सर्वे तत्कलांशाश्च ज्ञातव्या नात्र संशयः ईश्वरसर्वशास्त्रेषु शिव एकप्रकीर्तितः अर्थः शिवाङ्गात् सम्भूतस्तेन तं संश्रितो भवद धर्मम् कृत्वा समर्थश्च भवदे मानवोत्तमः सर्वकार्येषु देवेन्द्राक्रम एवं प्रकीर्तितः द्वितीयाश्रितयात्रादो दक्षिणद्वारसम्भवा कथिता सर्वभावज्ञैर्नरेभ्यः सर्वसिद्धये कामो भोगात्मकप्रोक्तो का देहाय विषयप्रदः विषयाणां समाख्यातं कारणं शक्तिरञ्जसा शक्तिरङ्गात् समुद्भूतः कामस्तेन महेश्वराः कामाश्रित्यस्ति दत्सोऽपि सर्वकामविवर्धनः आदौ धर्मं समाश्रित्य समर्थो जायते नरः ततः कामान् स्वयं भुङ्ग्रे सर्वान्ना सुखप्रदान् तृतीयं द्वारमे तस्मात् कामभोगफलप्रदम् कृतं यात्राविधानेदु ज्ञातव्यम् विबुधैः सदा मोक्षो जन्ममृदिभ्याम् च हीनः सङ्कीर्तितो बुधैः शुक्लाम् गतिम् दधत्तत्र नित्यदा आत्मा सूर्य इति तस्मान् तस्मान्मोक्षप्रलभ्यते तेन सूर्यम् समाश्रित्य मोक्षस्तत्रैव तिष्ठति कामेभ्यो धर्म संयुक्तस्तृप्तो भवति मानवः इच्छेन्मुक्तिं ततो यत्नाद्वितृष्णो देवसत्तमाः वासनायुक्तभावेन मुक्तौ नैव प्रवर्तते अतो मुक्तिमयं द्वारं चतुर्थं परिकीर्तितम् एतद्द्वारस्य देवेशा रहस्यं कथितं मया श्रवणात्सौख्यदं पूर्णं भवेत् पठनात् तथा एतत् क्रमार्थप्रामाण्यात् पूर्वं धर्मसमाश्रितं वैष्णवं तत्र कर्तव्यं द्वारं विघ्नेशनिर्मितम् ओं तत्सदि दिश्रीमदाध्ये पुराणोपनिषदिश्रीम उद्दे महापुराणे षे खंडे द्वार रहस्य वर्णन नाम दशमोध्याय ओं